श्रीमद्भागवतमहापुराणं पञ्चमस्कन्ध अथ द्वितीयोऽध्यायः आन्तरित्रं श्रीसुकुवाच एवं पितरि संवृते तदनुशासने वर्तमान आदिन् आग्निन्द्रो जम्बो दीपौकस प्रजा ओरस वर्धमावेक्षमाण पर्यगोपायत स च कदाचित् पितृलोककामः सुरवरवनिता क्रीडाञ्चलदूण्यां भगवन्तं विश्वसुजां प्रतिमामृतपरिचर्योपकरण आत्मैकाग्रेण तपस् तपस्व्याराधं जाम्बभूव तदुपलभ्य भगवानादिपुरुषसदसि गायन्तीं पर्वचित्तिं नामां सरन्तमभि यापयामास सा च तदाश्रमोपवनमतिरं मलीयं विविधनिबिडं विपन् निकरं तंस्लेष्टा निकर संश्लेष्टा पुरटं दतारूढस्थलविहङ्गममिथैथुनैः शोच्यमानश्रुतिभिः प्रतिबोध्यमानशलिलकुक्कुटकारण्डवकलाहंसादिभिर्विचित्र नृपकुजितां मलजलाशयं कमलाकरमुपं बभ्रामं तस्या सुललितं गमनपदविन्यासं गतिविलासायाश्चानुपदम् खडायं माणरुचिरं चरणाम्भरण स्वनमुपाकर्ण्य नरदेवकुमारः समाधियोगे न मिलितनयनलिनं मुकुलं युगलमीषद्विकचय्य विचष्ट तामेवाविदुरे मधुकरीमिव सुमनसमुपजिघ्रतिं दिवं दिविज मनुज मनोनयनाह्लादुघैर्गतिविहारव्रीडाविलयावलोकसुरस्वराक्षरावं यवैर्मनसि नृणां कुसुमायुधस्य विधतिं विवरं निजमुखं दिगलितामृता स्वसहासम्भाषणामोदमन्दान्त मधुकरनिकरोपरोधेन द्रुतं प्रतनविन्यासेन वल्गुस्पन्दनम् कलशं कबरं भाररशनां देवीं तदवलोकनेन विवितावरसरस्य भगवतो मकरध्वजस्य वचमुपनीतो जलविदिति होवाच का त्वं चिकीर्षसि च किं निर्वर्य शैलीम् मायासि कापि परदेवताया विद्ये विभरसि धनुषि सुहृदात्मनोऽर्थे किं वा मृगान् मृगयं यसेवीं विपिने प्रमत्तान् बाणाविमौ भगवतः शतभद्रपद्रौ स्थान्तावपुङ्खरुचिरावतीतिग्मदन्तौ कस्मै युजोक्ष शिवने विचरन्न विद्मः ते वायलो जडधियां तव विक्रमोऽस्तु शिष्या इवे भगवतः परितपठन्ति गायन्ति सामसरहस्यमजस्रमीशं युष्मशिखा विलुलितां सुमनोऽभिष्टे सर्वे भजन्ति शृङ्गला इव वेदशाखा वाचं परं चरणपञ्जरती तिरीणाम् ब्रह्मणरूपमुखुरां शृणवाम तुभ्यं नब्धा कदाम्बरुचिरङ्कविटङ्कबिम्बे यस्यामलात् परिधे क्वचवल्कलं ते किं संभृतं रुचिरयो द्विजशृङ्गयोऽस्ते मध्ये कृसो वहसि यत्र शेषिता मे पङ्कुरुणसुरभिरात्मविष्णाले दीग देनाश्रमं सुभगमे सुरभिकरोषि लोकं प्रदर्शयसृहित्तं तावकं नेयत्रत्य इत्थमरसावयवावपूर्वौ अस्मद्भिदस्य मनोन्नयनौ विभरति बहुवद्भुतं सरसराससुदाधिभक्त्रीम् कावात्मनिवृत्तिरजनाद्धविरङ्गवाति विष्णो कलाशिनिमिषोऽन्मकरौ च कर्णौ तद्विघ्नमीलयुगलं द्विजपङ्क्तिशोचीरासन्नभृङ्गनिकरं तन इन्मुखं यो ते योऽसौ त्वया करसरोजहत पतङ्गो दीक्षो भ्रमन् भ्रमत ए जयते क्षिणी मे नोक्तं न ते स्मरसि वक्रजटावरूथं कष्टोऽनिलो हरितिलं पट एष रूपो तपोधनतपश्चरतां तपोघ्नं ह्येतत्तुखेन तपसा भवतोपलब्धं चर्तुं तपोर्हसि मया सह मित्रमय्यं किं वा प्रसीदति सर्वै भवभावनो मे न त्वां त्यजामि दयितं द्विजदेवदत्तं यस्मिन् मनोदृगपि नो मां चारुशिङ्गर्षि नेतुमनुव्रतं ते चित्तं यत् प्रतिसरन्तु शिवासचिव्या श्रीशोकुवाच इति ललला नूनयाति विशारदो ग्राम्य वेदध्यया परिम्भाषया तां विबुधवधुं विबुधमति हृदि सभाजमातस्तस्य वीरयूथपतेर्बुद्धिशीलरूपवय श्रियौदार्येण पराप्न्तमनास्तेन सहायुतायुतं परीवस्वरूपलक्षणं कालम् जम्बोदीपतिना सोमं सर्गभोगान् बुभुजे तस्यामोह वा आत्मजान् स राजवर आन्द्रिन् आग्निध्रोन्नाभिकिं पुरुषहरिर्वर्षेलावृतम् अस्मकं हिरण्यमय कुरु भद्रा स्वकेतुमालसंज्ञान्नवपुत्रान् जनयत तासु त्वां तु त्वाथ सुतान्नवालों दत्सरं गृह एवापहाय पूर्वचित्ते भूय एवाजं देवमुपतस्थे आग्निद्रसुतास्ते मातुरनुग्राहा द्रौपदीकेनैव सङ्घनन्नवं नवललोपेताः पित्रा विभक्ता आत्मतुल्यनामाली यथाभागं जम्बूदीपवरषाली बुभुजो आग्निन्द्रो राजा तृप्तः कामानाम् अप्सरसमेवालुं दीनमदी मन्यमानास्तस्या स लोकतां श्रुतिभिः अवारुन्धयत्र पितरो मादयन्ते तं परे ते पितरी नो भ्रातरो मेरुद्विद्रीर्मेरुद्देवीं प्रतिरूपामग्रदृष्टिलतां रम्यां श्यामां नारीं भद्रां देववीतिमिति संज्ञा नवोदमहन् ते श्रीमद्भागवती महापुराणे पुरुश्यां शयितायां पञ्चमस्कन्धे आज्ञर्णनं नाम द्वितीयोऽध्यायः